Oh पाकयज्ञम् वान्वाहिताग्ने पशव उपतिष्ठन्त खलु वै पाकयज्ञस्यैषान्तरा प्रयाजानो याजान यजमानस्य लोके बहितावायमाणामभिमन्त्रये दुरूपवर्णवर्णये हेपशवो वायिनावशो नेवोपक्मयते यज्ञम् वै देवादुस्करणज्ञोऽसुरागम् मधुहत्ते सुराय लुब्धाः पराभव निजो वै यज्ञस्य हं विद्वान् यजतेऽप्यन्यै यजमानन्तु हे सा मे सत्याशीरस्य यज्ञस्य भूयादिप्याहैवे यज्ञस्य हस्ते नैवैनन्तु हे प्रतावै गोतुहे प्रत्ययनायजमानाय दुहे देवायिनायैस्तनायिगोपहूते वायुर्वत्सो योते नामपक्वयेण तर्हि होतार वीक्षमानो भायुं मनसाभ्याये ेवत्समुपावसृजति सर्वेण वैयज्ञेन देवास्तुवर्गं लोकमायन्वाकयज्ञेन मनुरश्वा व्यक्षेडामनमुपावर्तदतां देवा देवा देवा देवाधुराव्यवयन्द प्रतीज देवाः पराजीमधुराः सा देवानुपावर्तत भजवो वैतद्देवानवर्णत वजवधुरानजहुर्यङ्कामजेतापशस्याजति पराजेन्द्रेडामुक्वयेतापशुरेव भवति यङ्का जेदपशुमान् श्यादिति प्रदेशेन्दस्य नाम भक्वयेदपशुमानेव भवति ब्रह्मपादि न वदन्ति सत्त्वायि नाम भक्वये धीणा बभूयात्मानमिडा याम भक्वजेते निदानप्रिया सुप्रदोह जाहेणामेवोपभूयात्मानमिडा याम भक्वयते यश्चमिभवायेतज्जज्ञस्य यदि न सामि प्राश्नन्ति स्वामि जयन्तये ृहस्पतिस्तदा वै देवानां बृहस्पतिर्ब्रह्मणैव यज्ञकं सन्तधा निच्छिन्नै येतमन्दधात्येत्याह सन्तत्यै विश्वे देवा इहमादयन्ता मेत्याह सन्तत्यैव यज्ञं देवेभ्यो न्यां वै यज्ञे दक्षिणाञ्जरामस्य संक्रामन्त्रिषेशगी जानाजमानेन खलु वै तत्कार्यमित्याहुर्यथा देवत्रा दत्तम् कुर्वेतात्मन्वशोन् भ्रमयेते दिव्रथिन्वस्मेऽप्याह यज्ञो वै प्रध्रो यज्ञमेव तन्मह यत्यथो देवत्रैव दत्तम् कुरुत आत्मन्वशोन् भ्रमयते तदतो मे माक्षायीक्षितिमेवोपैति कुर्वतो मे मोपदसदित्या भूमानमेवोपै सर्गश्रवाहसौ वर्तनसस्तुमिम् जमौ मोदिमुवा जयच्छत्रिणागम्भोदाम्भोः कामिडामुपायुजितामुपापैो वा जयात् प्राणेन देवान् दाधान्यानेन मनुष्यालपाणेन पुत्रेणपि छिलप्ति सा जीत्येति होवाच शरीरम्बा अस्यैतदुपा इति होवाच गौर्वा अस्त्यै शरीरङ्गाम् भावतो तत्पर्यवदताञ्यायज्ञे दीयते दे प्राणेन देवान्ताधारयगा मनुष्या जीवन्ति सा व्यानेन मनुष्यानगाम् पितृभ्याघ्नन्ति सा पानेन पितृण यग एवम् वेदपशुवान् भवत्यछ वैदामुपा वैरिहोवाच जगा प्रजाः प्रभवन्ते प्रत्याभवतेत्यन्नम् वा अस्येतदुपायुवा चौषधयो वा अस्यान्नमोषधयो वै प्रजाः प्रभवन्ते प्रत्याभवन्ति एवं वेदान्नादो भवत्यथ वेदामुपा वैरिभो वा जगाः प्रजाः पराभवन्तिरनुगृह्णादिप्रत्याभवन्तेर्गृह्णातिप्रतिष्ठाम्ब अस्येतदुपा इति हो वाचेयम् वा स्थे प्रतिष्ठेयम् वे प्रजाः पराभवन्ति रणगृह्णादिप्रत्याभवन्तिर्गृह्णादि एवम् वेद प्रत्ययपतिष्ठकृथवेदावपाप इति हो आदयस्यैनिक्रमणे घृतम् प्रजाः सञ्जीवन्ते पिबन्तीति छिनत्ति सा प्रीति होवाचप्रतिजनयतेषवायिनामुपायिनिहोवाच वृष्टिर्वायिणा वृष्टेमे निक्रमणे सुतम् प्रजाः सञ्जीवन्ते पिबन्ते एवम् वेदप्रैव जायते नादो भवति परोक्षम् वा अन्ये देवा युज्यन्ते प्रत्यक्षमन्ये यद्यज देय एव देवाः परोक्षमिज्यन्ते तानेव तद् यज दयदन् वा हार्यमाहरत्येते वै देवाः प्रत्यक्षम् यद्ब्राहनास्तानेव तेन प्रेणायसो दक्षिणैवा सैषासो यज्ञस्यैव छिद्रमपि दधाति यद्वै यज्ञस्य क्रूरम् यद्विनिष्टम् तदन्वा हार्येनान् वा हरजगदन्वाहार्यस्यान्वाहार्यत्वं देवदूता वा एते यदृत्तिजोगिदन्वा हार्यमाहरजदेवदूतानेव प्रीणादिप्रजापजर्देन यज्ञान्यादिषत्सरिति चानो मन्यदृशेतमन्वा हार्यमभक्तमपश्यत्तमात्मन्न सत्यसवागेश प्राजापत्यो यदन्वा हार्यो यस्यैवं विदुषोऽवा हार्या क्रियते सा क्षादेवः प्रजापतिवरध्वाप्यपरमितोप्यो परमिदः प्रजापतिः प्रजापदे नाप्यै देवा ैवं विदुषोऽवाहार्या क्रियते सत्त्वे वेष्टापूर्ति प्रजापतेर्भागोऽधेत्याः प्रजापतिमेव भा भागधे येन समर्थयत्योर्जस्वान् पयस्वामित्याहोर्जमेवास्मिन्वयो दधानि प्राणापानौ मे पाहि समान ज्ञानौ मे पाहेत्याहाशिषमेवतामाशास्तेक्षितास्य क्षित्ये त्वा श्रेष्ठामुत्रामुष्मन् लोक इत्याह क्षीयते वामुष्कल्लोकेन्न मिलः प्रदान गृह्यमुष्पन् लोके प्रजामुपजीवन् द्विगदेवमभिवृषत्य क्षितिमेवै मद्गमय दिनास्यामुष्कल्लोकेन्न क्षीयते बर्हिषोऽहम् देव यज्ञयाः प्रजावाहन् भोजासमित्याह बर्हिषा वै प्रजापदे प्रजा असृजत तेनैव प्रजासृजतेन राशंसस्याहम् देव यज्ञया पशुवान् भोजाधमित्याह न राशगंसेन वै प्रजापदे पशूनसृजत तेनैव पशून्सृजते ज्ञे स्पृष्टकृताहम् देव यज्ञया यज्ञेन प्रतिष्ठाङ्गमे ज्ञाहाय देवात्म न्धत्ते प्रति यज्ञेन तिष्ठरि दर्शपूर्णमासयोर्वै देवा बुद्धिरिमनोजयिन्दर्शपूर्णमासा भ्यामसुरानपानुदन्ताज्ञेरह बुद्धिमनोज्जैमित्याह दर्शपूर्णमासयोरेव देवतानायमानबुद्धिमनोज्जैरिदर्शपूर्णमासा भ्याम् भ्याम् प्रतिष्ठत्येयो वै यज्ञस्य बोधो विद्वानैजदौ उभयदेव यज्ञन्तु हे पुरस्ताच्चोपरिष्टाच्चैषवान्यो यज्ञस्य दोहगितायामन्यो यदि होता गजमानस्य नाम गृह्णीया तर्हि ब्रूयादेवा अग्मन्नाशिशो दोहकामा इति सग्रस्तुता एव देवता दुहेसो उभयत एव यज्ञन्तु हे पुरस्ता ोहितेन त्वाज्ञदाङ्गमयमित्याहै देवै देवाश्वायिमानः प्रस्तरोगेतेः प्रस्तरं प्रहरति देवाश्वैदेव यजमानकं सुवर्गं लोकङ्गमयदिविते मुञ्जाभिरचनाभिरश्मीनित्याहैशवग्नेर्भिमोकस्ते नैवैनं विमुञ्जरि विष्णुशय्यो रहन्देव यज्ञया यज्ञेण प्रतिष्ठाङ्गमेगमित्याहयज्ञो वै विष्णुर्यज्ञके डः प्रतिष्ठति सोमस्याहन्देव यज्ञयासुरेता रेतोऽधिषेयेत्याह सोमो वैरेतोथास्तेनैव रेत ेन प्रभूया समित्या हैतस्माद्वै मिथुना प्रजापदर्मिथुनेन प्राजागद तस्मादेव यजमाना मिथुनेन प्रजायते वेदोऽधिमित्यरसि विजेयेत्याह वेदेन वै देवासुराणां भित्तं वेद्यमविन्दं दत्तद्वेदस्य वेदत्वं यद्यध्यातव्यस्याभिध्यायेत्तस्य नाम गृह्णीघात्तदेवास्य सर्वं वृङ्क्ते भिलवन्तङ्कुलागिनगुं रा स्पोषकम् <Sess> सहस्रिणम् वेदोदता भाजिणमित्याह प्रसहस्रम् पशूणाः प्रत्यास्य प्रजायाम् भाजे चायचेत एवम् वेद ध्रुवाम् वैरुच्यमानाय यज्ञो ददृच्यते यज्ञजमानो यजमानम् प्रजा ध्रुवामाप्यायमानाय यज्ञोन्वाप्यायते यज्ञं यजमानो यजमानम् प्रजा आप्यायताम् ध्रुवा धृतेनेत्याहद्ध्रुवामेवाप्याय यदि कामाप्यायमानान् यज्ञान् वाप्यायते यज्ञं यजमानो यजमानम् प्रजाः प्रजापतेर्विभान्नामनो तस्मैस्तादधामि सह यजमानेनेत्याहायं <Neptunle> वै प्रजापतेर्विधान्नाम लोकस्तस्मिन्नेवैनन्दधाति सह यजमानेन ऋच्छद यवा वेतद्यजते यजमान भागं प्राश्नात्यात्मानमेव प्रीणात्येतावाय वै यज्ञो यत्येतद्वै सूर्यभसकम् सोदकं यद्वरिहिपश्चैतद्यजमानस्यायतनै यद्वै धर्यत्तो नेदिनयतिष्वैवायतने सूयभं सोदकं कुरु देशदृन्मे भूयाहित्याहपो वै यज्ञ आपो मृतं यज्ञमेवामृतमा बन्धत्ते सर्वाणि सा विद्याहैष वैद ऋषपूर्णमासयोरव भृथो यान्येवैनं भूतानि व्रतमुपयन्तमनोपयन्दितैरेव सहामभृथम वैदि विष्णुमुखावै देवाश्छन्दोभिरिमान् लोकाननवजेयमभ्यजय न यद्विष्णुक्रमान् क्रमदयविष्टरेव भूत्वाजमानश्छन्दाोभिरिमान् लोकाननपजेयमभिजयति विष्णाक्रमास्पभिमादिहेत्याह गायत्री वै पृथिवे ैष्टभमन्तरिक्षम् जागते द्योदानः प्रभेऽर्तितच्छन्दाभिरेवे मान्दाकार पूर्वमभिजयति अगन्वसुभस्सुवरगन्वेत्याः सुवर्गमेव लोकमेति सन्दृशस्तेमाचित्सयत्ते तपस्तस्मै देवा वृक्षेत्याह कृथायजु देवैतत्सुभोर श्रेष्ठो रस्मै नामायुर्धास्यायुन्मेधेहीत्याषमेवेतामाशास्ते प्रवागेषोऽस्मान् लोकाच्यवदेयो विष्णुक्रमान् क्रमदे सुवर्गाय हि लोकाय विष्णुक्रमाक्रम्यन्ते ्रह्मवादिना वदन्ति सत्त्वैवष्णक्रमान् क्रमे दैवान् लोकान् भ्रातव्यस्य संवेध्य पुनरिमल्लोकम् प्रत्यवरोहेदित्येषोकस्य प्रत्यवरोहो यदा हेदमहममुम् भ्रातव्यमाभ्यो विभ्योऽस्यैदिवयुजीमानेव लोकान् भ्रातव्यस्य लोकं प्रत्यवरोह प्रत्यवरोहति सञ्ज्योतिषा भूममित्याहास्मिन्नेव लोके प्रजतिष्ठत् य इन्द्रैवावृतमन्वा वर्तयित्याहासो वा आदित्य इन्द्रस्तस्यैवावृतमनुपर्यावर्तते दक्षिणा वर्यावर्तते स्वमेव वीर्यमनुपर्यावर्तते तस्मात् दक्षिणोऽर्थ आत्मनो वीर्या वर्ततोऽ आदित्यस्यैवावृतमनुपर्यावर्तते समहम् प्रजया संवया प्रजयेत्याहाशिष मे वेतामाशास्ते समिद्धो अग्ने मेधितमे अग्नेतीत्या समित्याः यथा यजुरेवैतद्वधुमान् यज्ञावयान् भूयासमित्याः सिषमेवैतामाशास्ते बहुवैकारिकपत्यस्यान्ते मिश्रमिवचर्यत अग्निपावमानेभ्याङ्कारिकपत्यमुपतिष्ठते पुना सैवाग्नि पुनीत आत्मानन्त्वाभ्याम् प्रतिष्ठयित्वा अग्ने गृहपदयित्याह यथा यजुरेवैतच्छतकम् हिमायित्य सदन्ता हेमन्तानन्दे ये दिवा वैदराकपुत्रस्य नाम ग्रन्थाश्चादमेवैरं करोदिता माषिसमासा सेदन्त मे ज्योतिष्प देवि देब्रो याज्ञस्य पुत्रो पुत्रो जायदेता माषिसमासा देवस्मे ज्योतिष्पदेव देब्रो याद्यस्य पुत्रो जातस्यात्यैजगेवास्मिन् ब्रह्म वर्त्यसन्दधा जयो वे, वे यज्ञं प्रयुजन विमुञ्चत्य प्रतिष्ठाना वैस्त्वा युनक्तिमुञ्च द्वित्याः प्रजापदर्वेयः प्रजापति नैवैन युनक्ति प्रजापतिना विमुञ्चति प्रतिष्ठित्या ईश्वरं वै प्रथमविसृष्टं प्रथमोऽ प्रथमचारुषमित्याह व्रतमेव विसृज देशान्त्याः प्रदाप यज्ञके दिननिवर्तते पुनर्यो वै यज्ञस्य पुनरालम्भं विद्वा जेतमभिनिवर्तते यज्ञेत्यवदभागम् रुन्ध्ये प्रसहस्रम् वशोरास्य प्रजायाम् बाजीजायते देवसविदप्रसुभयज्ञम् प्रसुभयज्ञपदिम् प्रसु भगाय निर्योगम् धर्वः एततो केदन्नः पुनातु वाचस्वधर्वा च मध्यस्वदाजिनः इन्द्रस्य वज्रो शिवात्राभ्यस्तजायम् वृत्रम् वध्यात् वायस्य न प्रसवे मातरम् महीमधिजन्नामवचसागरामहे यस्यामिदम् विश्वम् भुवनमा विवेशतस्यान्नो देवः सविताधर्मसा विशत् अप्सन्तरमृतमप्सुभेणजमपामृतप्रसत् विश्वश्वा भव समाकिनः आयुर्वा त्वामनुर्वात्वागन्धर्वाः सप्तविकुंशतिः हे अग्रे अश्वमायुञ्जन्ते अस्मिन्न्यवमादधुः दासु हेमलयौर्मिः गुद्धान् प्रतोर्चा समस्ते नायम् वाचकम् विष्णाक्रमादिविष्णाक्रान्तमधिविष्णार्विक्रान्तवस्यङ्कौ णिङ्गामभितो रथञ्यौद्धान्तम् वाताक्रमरसङ्करन्तो धूरेः गीन्द्रियाभान्वहत्रीयः पप्रयः पारयन्तो देवस्याहकम् सिदः प्रथवे बृहस्पतिनावाजरिवाचेषम् देवस्याहकम्स पिदः प्रथवे बृहस्पतिनावाजलिरान्नाकुम् गृहे यमिन्द्राय वाचम् वदतेन्द्रम् वाचम् चापयतेन्द्रोवाचमजयते अश्वाजनिवाजिनिवाजेषु वाचिनेभक्त्युश्वान् समत्सु वाचया अर्वासिसप्तरशिवाज्यशिवाजिनो वाजन् धापदमरुताम् प्रथमे जय रवियोजनामिवे अध्वमध्वनः प्रभृतकाष्ठानाम् गच्छद वाजे वाजेवत वाजिनो नो धनेशिप्रामृताः अस्य मध्वप्युपदमादयद्धम् तृप्तागातपथिभद्भेवयानीः तेनो अर्वन्तोऽहवनः श्रुतोहवम् विश्वे शृण्वन्तो मितद्रव सहस्रता मेधता दाश निश्यवेर तुम सभीु ज भृजेशन्ना वाजिना हवेशतावस्वर्गांभयिवृक्षाकंसनेजिवर्णमी वादी क्षिपणींण्य दिग्वायाधि कक्ष आसने झक्रामसन्तवे त्वठामङ्गागत्यम् वापणीफणत् उदस्माश्रद्रवदसुरम् इडः पर्णण्डवेरनुवादिप्रगर्भिणः शयनस्य वध्वजतोङ्गसंवरितझिक्रान्नः सहोरित्रतः आमावाजस्य प्रसभो जगम् यादाद्यावापृथिवी विश्वसम्भो आमा गन्ताम् पितरा मातराजा मासोमो अपदत्पायगम्यात् वाजि न वाचजचि द्वभाजकम् सहिष्यन्तवाचेष्यन्त बृहस्पदेभागमवजिघ्रदवाजि न वाचजि द्वौवाचकम् सदृभागम् स्वभाजम् जिगिवागम् स्वबृहस्पदे भागे निमर्ध्वमियम् वःसा सत्या सन्धा भव्यामिन्द्रेण ध्वमजी जिपदपनस्पतेन्द्रम् वाचम् विमोच्यध्वम् क्षत्रस्योऽनुगमधिक्षत्रस्य योनिरधिजायये सुभोरोहावरोहारहन्ना उभयोः सुभोरोक्षिवायश्च प्रसवश्चाभिधश्च कृभश्च मोर्दायव्यष्टयश्चान्द्रायिनश्चान्द्यश्च भुवनश्च भुवनश्चाधिपतिश्च आयुर्वज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर् यज्ञेन कल्पता विश्वात्र यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पदाम् यज्ञो यज्ञेन कल्पताम् सुवर्देवागुम् अगन्मा अभोम प्रजापदय प्रजा अभोम समहम् प्रजयासं मया प्रजासमहकुम् राजस्पोषेण सम्मया राजस्पोषोन्नायत्वान्नाद्यायत्वा वाजा यत्त्वा वाचित्यायेमृतमधिमुष्टिरधिप्रजननमधे वाजस्येवम् प्रथमसुषु वेदाग्रे सोमगुम् राजा नमोऽषेश्वप्सु अस्मभ्यम् मधुमतेर्भवन्त वयगुम् राष्ट्रेजाग्र्या पुरोहिताः जस्येवम् प्रथम आपभोगे वाचविश्वाभुवनानि सर्वतः सविराजम् वर्ये जानम् प्रजाम् पुष्टिम् बद्धयमानो अस्मे वाजस्येवाम् प्रथमशिश्रियेमाजविश्वाभुवनानि सम्राट् कवित्सन्दन्दावैदप्रजानम् त्रयम् च नः सर्ववेयच्छतु अज्ञे अच्छावदेहनः प्रतिनः सुमना भव प्रणोयच्छ भुहस्पदेथ न अधिहस्ताम् प्रणोयच्छत्वरि यमा प्रभगः प्रबृहस्पतिः प्रदेवाः प्रोतसोनृः प्रभाीदधातुमः हरिगमनम् बृहस्पतिमिन्द्रन्दानादयम् विष्णुकुम् सरस्वतीयम् सविचारम् च बालिनम् आदित्यानविष्णपुम् सौर्यम् ब्रह्माणम् च बृहस्पतिम् देवस्य त्वाधविदः प्रथमेऽस्मिन् बाहुभ्याम् ओष्णोहस्ताद्भ्या किम् सरस्वती वाचो यन्तुर्यन्त्रेणाग्ने स्वाधाम्राज्येनाभिरिञ्जामेन्द्रस्य बृहस्पते क्षरेण वाचमुदयेनक्षरेण प्राणापानामुदयताम् विष्णुस्त्यक्षरेण त्रीणोकानुदजयत्स्वाश्चतुरक्षरेण जगत्पदपशोदयत् पोषा पञ्चाक्षरेण पञ्चमुदयधाता षडाक्षरेण मृतोनुदरेण मरुदस्सत्ताक्षरेण सप्तपदा पुंशत्परे मुदरयन् बृहत्परि रक्षरेण गायत्रीमुदयन्मित्रोऽनवा विराज स्त्व मुदजयन् वरुणोदधाक्षरेण विराजमुदयसाय देवा द्वादशाक्षरेणे मुदजयन् त्रयोदशाक्षरेण त्रयोदशग्रस्त्व मोदजयन् रुद्राचतुर्दशाक्षरेण चतुर्दशग्रस्त्व मोदजयन्नादित्या पञ्चदशाक्षरेण पञ्चदशग्रस्त्व मोदजयन् नलिषोडशाक्षरेण शग्रस्त्वमृदजयत् प्रजापतिः सप्तदशाक्षरेण सप्तदशग्रस्ताममुदजयत् यामगृहेतोऽति निषदन्त्वात् त्रिषदम् भवनसमिन्द्रायचष्टम् गृह्णामेषाय त्वोपयामगृहेताम् व्यामसदमिन्द्रायतुष्टम् गृह्णाम्येषदेयो निलिन्द्राय त्वोपयामगृहेतोऽति पृथिविषदन्त्वान्तरिक्षततन्नाकसदमिन्द्रायतुष्टम् गृह्णाम्येषदेयो जलिन्द्राय ये ग्रहाः पञ्चजलेना येषाः मिश्रः परमजाः परे व्यः कोषः समुज्जितः तेषाम् विषप्रियाणाम् विषमोर्जकुम् समग्रभीमेष तेयो नियत्वा अपागुम् रसमुद्दयतकुंसौर्जरश्मिकुम् समाभृतम् अपागुम् रथस्य यो मया विष्ठा जनयम् गर्वृातुः स प्रत्युदयेद्धरणो मध्वो अग्रग्यस्वायाम् यत्कनुभेदयता वयाविहेदा प्रजापदये त्वाजष्टम् गृह्णाम्येषपदये त्वार्वता सह अनन्मेन्द्रगुं रोदसी वावधाने अन्वापो अतिशतरायमानम् अनुतेताय महयेन्द्रियाय सत्राथेभिश्रमणवृत्रहत्ये अन्मक्षत्रमणसहो विनत्रेन्द्रदेवभिरनुतेषक्ये इन्द्राणि मासुनारिषु सुपत्नी महामः नाहमिन्द्रानिवारणसख्युर्विशाकपेते यस्येदमप्यगम् हविः प्रियम् देवेषु गच्छति यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् यस्य सुष्मा द्रोदसी अभ्यसेतान् मतादिविद्यन्नस्य बाहुवान्मा ते मनामिष्पद्रिगग्मिचारी मानामद्धीराभरा तद्धितन्नः प्रभा सु भोरिगत्ते नव्येदेष्टे षष्टे अस्मिन् तमुखे प्रभ्रवामभयविन्दस्तुवन्तः आदोभरमाकिरे तत्परिष्ठात् विद्माहि त्वावसुपतिम्बूना इन्द्रयत्रे माहिरन्तत्रमस्यस्पभ्यन्तद्धर्यश्वे प्रदातारकम् हवामह इन्द्रमाहविषाभयम् उभाहिहस्तावसुरावृतस्वा प्रयच्छदक्षिणादौतसव्यात् प्रदाता वज्रे विषभस्तुराशासमभावा अस्मिन् यज्ञे बलिहिष्यानिषद्याथाभवयमाना यशय्याः इन्द्रः सुत्रा वा स्वभागम् अहोभिः स्वटेको भवतु विश्ववेदा बाधतान्द्वेषोऽभयम् तृणोतु सुवीर्यस्य पदयस्याम तस्य वजगुंसुपदौ अस्मे आनार्चिद्वेधः ेवमारीन्द्रे सन्तु दृविवाजाः पुरोधमिन्द्रायशोषमक्षता अपि केचित् लोकवित्सङ्गे समत्सुवृद्धः अस्माकम् रोधिचोदिता न भामन्यकेशाका अधिधन्वसु ओ